श्रीहरे न महा न सप्ततितमोऽध्यायः श्रीशुक उवाच नरकं निहतं श्रुत्वा तथोत्वाकं च योषिताम् कृष्णेनैकेन भक्वीनां तद्दितृषु स्मनारदः चित्रं पतैददेकेन वपुषायुगपत्पृत गृहेषु त्वयष्टसाहस्रं स्त्रिय एक उधावक इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागम पुष्पितोपवनाराम द्विचालिकुलनादिताम् उत्पुल्ले धीवराम्भोज कल्हारकुमुदोत्पलैः चुरितेषु सरसूश्चै कूजितां हंससारसैः प्रसादलक्षैर्नवभेर्जुष्टां स्फाटिकराजतैः महामरकतप्रज्ञै स्वर्णरत्नपरिच्छदैः विभक्तरत्यापथचत्वरापणैः सालासभाभिरुचिरां सुरालयैः संसिक्तमार्गाङ्गणवीति देहले पतत्पदघाध्वज तातप तस्यामन्तःपुरं सीमदर्चितं सर्वधिष्ण्यविपैः हरे स्वकौशलं यत्र त्वष्ट्राकास्नेन दर्शितं तत्र षोटसभिः सत्म सहस्रैः समलङ्कृतं विवेशैकतमं शौरे पत्नीनां भवनं महत् विष्टब्धं पिष्टब्धं वित्रुमस्तम्भैर्वैधूर्यपलकोत्तमैः इन्द्रनीलमयैकुट्यैर्जगत्या चाहतद्विष पितानैर्निर्मितैस्त्वष्ट्रा मुक्ताधामविलम्बिभिः दान्तैरासनपर्यङ्कैर्वण्योत्तमपरिष्कृतैः दासिभिर्निष्कखण्डिभिम् सुवासो विरलङ्कृतम् पुम्पिस्सञ्चुकोष्णीष सुवस्त्र मणिकुण्डलैकी रत्नप्रदीपनिकरद्युतिभिर्निरस्ता ध्वान्तं विचित्रवलभीषु शिकण्टिनोङ्घ नृत्यन्ति यत्र विहिता गुरुधूपमक्षैर्निर्यान्तं ईष्यघनबुद्धय उन्नदन्तः तस्मिन् समानगुणरूपवयः सुमेश दासीसखस्रयुतयानुसवं गृहिण्या विप्रोधतर्श चमरव्यजनेन रुक्म दण्टेन सात्वदपतिं परिवीजयन्त्या तं सन्निरीक्ष भगवान् सहोऽस्थितश्री पर्यङ्कतः सकलधर्मभृताम् वरिष्ठः आनन्द्यपादयु कलं शिरसा किरीट जुष्टेन साञ्चलिरवी विसतासने स्मे तस्या वनिज्यचरणौ तदभस्वमूर्ध्नात् पिभ्रजगद्गुरुधरोऽपि सतां पतिर्ह्ये ब्रह्मण्यदेव इति यद्गुणनामयुक्तं तस्यैव यच्चरणशौचमशेषतीर्थम् सम्पूज्य देव ऋषिवर्यं ऋषिः पुरोणो दितेन। नरसकोविदिनोदितेन वाण्याभिभाष्यमितयामृतमिष्टया तं प्राह भगवते करवामहे किम् नारदौ उवाच नैवाद्भुतं त्वयि विपो किलोकना ते मैत्रीजनेषु सकलेषु धमः कलानां निःश्रेयसायकि जकस्थितिरक्षणाभ्याम् स्वैरावतारुरुगाय विधाम सुष्ठु दृष्टं तवाङ््रियुगलम् जनतापवर्गं ब्रह्मादिभिर्हृति विचिन्त्यम् अघातभूतैः संसारकूपतितोद्धरणावलम्बं ध्याश्चरामि अनुग्रहाण यता स्मृति स्यात् ततोऽन्यधा वि सद्येहं योगेश्वरेश्वरयाङ्गयोगमाया विवित्सया दिव्यन्तम् अक्षैस्तत्रापि प्रियया च उद्धवेन च पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः पृष्टश्च विदुषे वासो गता यातो क्रियते किं नु अथापि ब्रूहिणो ब्रह्मन् सतो विस्मित स तु विस्मितबुत्थाय तूष्णे तत्राप्य तत्राप्यचष्ट गोविंदं लालयन्तम् सुतां शिशून् ततोऽन्यस्मिन् गृहे पश्यत् मज्जनाय कृतोद्यमम् जुक्वन्तं च विधानाग्नेन् यजन्तं पञ्चभिर्मकैः भोजयन्तं द्विजान् क्वापि भुञ्जानम् अवशेषितं क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्मवाग्यतम् एकत्र चासि सर्वभ्यां चरन्तम् असि क्वापि विचरन्तं गदाग्रजं क्वचिच्चायानं पर्यङ्के स्तूयमानं च बन्दिभिः मत्रयन्तं च कस्मिञ्चेत् मन्त्रिभिश्चोद्धवादिभिः जलग्रीटारतं क्वापि वारमुख्या बलाव्रतं कुत्रचित् द्विजमुख्येभ्यो दधतं घास्वलङ्कृताः इतिहासपुराणानि शृण्वन्तं मङ्गलानि च <laughs> हसन्तं हास्य कथया कदाचित् प्रियया गृहे क्वापि ध्यायन्तमेहमासीनं पुरुषं प्रकृतेः परम् शुश्रून् शन्तं क्वापि कामेर्भोकैः स विग्रहं कैश्चित् सन्धिं कुत्रापि सह चिन्तयन्तं सतां शिवं पुत्राणां दुहितॄणां च काले विद्युपयापनं दारैर्वरैस्तत् सदृशे कल्पयन्तं विभूदिभिः प्रस्तापनोपानयनै अपत्यानां महोत्सवान् वीक्षयोगेश्वरे शस्य येषां लोकाविशिस्मिरें यजन्तं सकलान् देवान् क्वापि क्रदुभिरूर्जितैः पूर्तयन्तं क्वचिद्धर्मम् कूपारामममममढादिभिः चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवं घ्नन्तं ततः पशून्मेद्यान् परीतं यदुपुङ्गवैः अव्यक्तलिङ्गं प्रकृतिक्ष्वन्तः तद्भावबुबुत्सया अतो वाच गृही केशं नारदः प्रहसन्निव योगमायोदयं वीक्ष्य मानुषी मीयुषो गतिं विधामयोगमायास्ते दुर्धर्ष अपि मायिना अनुजानी मां देव लोकान्स्ते यशसाप्लुतान् पर्यटामि तवोद्घायन् लीलाम्भुवनपावनी श्रीभगवानुवाच ब्रह्मन् धर्मस्य भक्ताहं कर्ता तदनुमोदिता दक्षिक्षयन् लोकमिमम् आस्तितः श्री उवाच इत्याचरन्तं शद्धर्मान् पावनान् गृहमे दिनां तमेव सर्वगेहेशो सन्तमेकं दतर्सह कृष्णस्यानन्तवीर्यस्य योगमायामहोदयं मुहोर्दृष्ट्वा ऋषिरभूत् विस्मितो जातकौतुकः इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना सम्यक् सभाजितः प्रेत मनुष्यपदवीमनुवर्तमानो ारायणोऽलभवाय गृहीतशक्तिः रेमेऽङ्घोटससहस्रवराङ्गनानां सव्रीटसौहृदनिरीक्षणः स जुष्टः यानीक विश्वविलयोद्भववृत्तिहेतुः कर्माण्यनन्यविषयानि हरिश्चकार यस्त्वङ्गगायति शृणोति अनुमोदते वा भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्ते कृष्णगार्हस्त्य दर्शनं नाम एकोनसप्तदिमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथ महाराज की जय